मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं नयन् अज्ञानिनां क्रमयोगवर्णनम् श्रीगणेशाय नमः दक्ष उवाच चित्तं चञ्चलमत्यन्तं विषयेषु परायणं दुर्ग्रहं शान्तिसंयुक्तं न भवेन्मुनिसत्तमा अधो योगस्य प्राप्त्यर्थं सिद्ध्यार्थं सुगमं ततः उपायं वदचित्तस्य चित्तस्य जयार्थं वा परं प्रभो मुग्गल उवाच पञ्चचित्तेषु यत् बिम्बं स्थितं भ्रान्त्या समन्वितं चिन्तामणेः समाख्यातं तस्यैव भजनं चरेद तेन चित्तं जयेद्योगी नान्यं पश्यामि भो विधे विना योगदायकं नात्रसंशयः दक्ष उवाच सुगमं वदमार्गं मे सर्वेभ्यो ब्रह्मदायकं संसेव्यजन्तवः सर्वे ब्रह्मीभूता भवन्ति वै मुद्गल उवाच अज्ञानेन समयुक्तो नरो विषयलं पडः शिस्नो दरपरो नित्यं योगं नेच्छति कर्षिचिद तस्य सकामिकं कर्म सुखदं सुखदम् बोधयेत्परम् अलभ्यप्रापकं हृद्यमाचरे लोभसंयुधः अलभ्यलभ्यलोभेन त्यक्त्वा पापं महाकलः सत्कर्मनिरधो भूत्वा चरेत्पुण्यं निरन्तरं तदस्तेनैकभावेन पापं नश्येन्निरन्तरं शुद्धोऽत्यन्तं नरकुर्यात्कर्म कामयुदम् परम् समाप्नुयात् ततो लभ्यं हृद्यं चेत् पुनरेव सः विश्वासेन समयुक्तकुर्यात् कर्म विशेषतः अथवा नैव सम्प्राप्तमलभ्यं तेन तं तदा उपादिश्यद्विशेषेणाधिकं सत्कर्म चाचर अनन्तजन्मभिः पापं त्वया भवदिते संशयम् अपारमन्तरायो भवति ते तद्विघातकम् एवं कर्मपरसोऽपि दुःखितोऽत्यन्तमाचरेद पापनाशार्थमानन्दात्तेन शुद्धान्तरो भवेद् सत्कामिकपरस्यास्य कर्मात्यन्तप्रभावतः तस्य बुद्धिर्भवेद्दक्ष निःकामिकपरायणा जन्ममृत्युप्रदा भोगा भुक्ता विविधजन्मसु अपारसुखदम् ब्रह्म न प्राप्तं देहधारिणा अलभ्यं नमया मया प्राप्तम् प्रारब्धाधीनतो धवा प्रारब्धं चालितुम् कोऽपि नसमर्थो समर्थो भविष्यति अतो निःपामिकम् कर्म करोमि नित्यमादराद जन्ममृत्यु नित्यमादरादजन्मृत्युविहीनोऽहं भविष्यामि न संशयः ब्रह्म ब्रह्मसुखमपारं यल्लब्ध्वा ब्रह्मपरायणः ब्रह्मीभूतो भविष्यामि यत्नं करोमि तत्परः एवं धार्यपरित्यज्य कामान् सेवेत् स पञ्चकान् देवान् गणेशमुख्यांश्च मुक्तिमार्गपरायणः सालोक्यादिभवं सौख्यमिच्छति नित्यमादराद क्रमेण तपसा युक्तो प्रभवेन् मानवस्तदः विभूतिर्ब्रह्मणः प्रोक्ता नानारूपा प्रजापदे तत्र तस्य रमे इमे समर्थरूपा ब्रह्मणः परमात्मनः अंशतेजोद्धरास्तस्य सर्वाधीशा भवन्त्यः एवं सर्वत्र सञ्चिन्त्येषां पूजापरो भवेद् लभेत्तत्कृपया दक्षचित्तशुद्धिं नरोत्तमः विचारेण गणेशानम् ज्ञात्वा सम्पूर्णमञ्जसा सर्वपूज्यादिचिह्नैष्टं श्रेष्ठं तत्र रदो भवेद ज्ञात्वा स्वानन्दनाथं तं स्वानन्दार्थं विशेषतः प्रभजेद्गणराजं स निष्कामभक्तिसंयुतः तदो हर्निशमत्यन्दम् भजेत्तपसायुधः मोक्षार्थं सर्वभावेन विरक्तो विश्रयादिषु गणेशकृपया तस्य चित्तशुद्धिर्भवेत्परा तया सर्वस्वभावेन भजेत्तं गणनायकं विश्वं चराचरं सर्वं जानीयात् तत् स्वरूपकम् सर्वेषां हितभावेन भजेत् तं द्विरदाननं कस्यापि सम्भवेद्दुःखम् तादृशम् प्रचरेन्न सः स हन् सन् द्वन्द्वजम्भावमार्जवेन समन्वितः देवकार्यं विना साधुर्न छिन्त्यात् स कदाचन पत्रादिकं विशेषेण विश्वरूपपरायणः एकान्ते निर्जने स्थाने गजाननं पूजयेद्भक्तिसंयुक्तो ध्यानं कुर्याद्विशेषतः अनन्यमनसा देवं भजेत्तं भावधारकः शमदमपरो भूत्वा चित्तनिग्रहमाचरेदुर्जयं चित्तमत्यन्तं ज्ञात्वा वायुनिबद्धनः प्राणायामपरो भूत्वा जयेत्तन्नात्र वदामि मार्गमुत्तमम् येन पापम् परित्यज्य शुद्ध चित्तो नरो भवेद पूरयेद्वामनासायाम् वायुम् तस्माच्च दुर्गुणम् धारणं तस्य कुर्यात् स्वोदरे नियतो भवेद पूरकाद्विगुणं कुर्याद्रेचकं च प्रजापदे पुनर्नसा सा दक्षिणया कुम्भकं चरेद वामयारेचकं चैव पुनः पुनर्निरन्तरं प्राणायामं चरेद् पापहीनो नरो भवेद एवं त्रैकालिकं कुर्यात् प्राणायामं विशेषतः नादि वायुं हठ समन्वितः अतिहठेन संरुद्धो वायु रोमभ्य एव च निःसृत्य तं करोति संशयः नाभिमूलस्तिदानाडी इडाच च सुषुम्ना तत्र रोधेन मार्गो भवति निर्मलः अपानोनाभिमूलस्थोह्यथो गच्छति सर्वदा प्राणर्ध्वं तथा जन्तोर्नाडीभिप्रेरितः सदा मार्गरोधनभावेन नाड्यां मार्गो भविष्यति वायुर्मूलं समाश्रित्य तिष्ठदि क्रमतस्तदः तत्र लक्षु अक्षरण्येवद्वादशापि प्रतिष्ठति वायुश्चेत् स लघुः प्रोक्तः प्राणायामश्च योगिभिः ततोद्विगुणतस्तिष्ठदा वायुः सुरोधितः मध्यमः समाख्यादस्त्रिगुणादुत्तमोत्तमः एवं प्राणमपानं च स्वमूले सन्नयेद्बुधः तयो रोदनभावेन मूलगौतौ भविष्यतः एवं क्रमेण मूलेयं वायुर्मुहूर्तं तदा समानगानाडी बिद्यते तत्र संस्थिता सा सुषुम्ना समाख्यादा तत्र क्रमाद प्राणापानौ समौ भूत्वा तद्रूपौ तौ भविष्यतः त्रिकालज्ञस्वयं सिद्धो भविष्यदि नरोत्तमः वायु साधनपात्रत्वं प्राप्य तेजः समन्वितः तदस्वाधीनतां यादौ प्राणापानौ विशेषदः स नयिष्यति तौ यत्र क्रमात्तत्र गमिष्यदः ततोध्यानपरो भूत्वा षट्चक्रभेदनेरदः चक्रस्तं स्वस्वरूपं स पश्येत् तद्वायुनागदः एवं क्रमेण योगीन्द्रो गच्छेद्भेद्य प्रजापदे सहस्रारे स चक्राणि तत्र पश्येद्गजाननं तत्र क्रमेण वायुं संस्थापयेत् सुसमाधिना वायुना संयुतस्तिष्ठेद पश्यन् विघ्नेश्वरं परं क्रमाद्वायुबलेनैवं शुद्धचित्तो भविष्यदि पश्येत्सर्वप्रभाव्येषु स्थितं ब्रह्मसनातनं तदस्वाधीनतायुक्तप्रभवेत्स्वेन तेजसा यं यमिच्छेत् स तं तं तु सद्यो वै सफलं भवेद् किञ्चिदिच्छेन्न यो योगी तदा योगमवाप्नुयात् नो चेच्छन्दरतो भूत्वा भोगयुक्तः पुनः पतेद् साधनं द्विविधं प्रोक्तं क्रियारूपं प्रजापदे बाह्यं कर्मस्वरूपाख्यं तपोयुक्तम् स्वधर्मजम् आन्तरं वायुरोधाख्यं सर्वसिद्धिप्रदायकम् ताभ्यां चित्तम् विनिर्गृह्य स्ववशं कारयेन्नरः बाह्यकर्मरथान्तोरान्तरं शीघ्रसिद्धिदम् सहस्राधिकभावाख्यं प्रोक्तं योगीन्द्रमुख्यकैः अतः तृतीयं ते साधनं कथयाम्यहं येन योगीन्द्रसेव्यसध्रुवं भवति मानवः चित्तशुद्धेश्च कार्यार्थं कर्म शुद्धचित्तो नरः पश्चात् सम्पश्येद् ब्रह्म शाश्वतम् सर्वत्र पूर्णभावेन संस्थितम् परमव्ययम् अवयवादिभिर्हीनं तत्र लीनो भवेत् स्वयम् एतावान् फलादायं क्रियायो बाह्यान्तरात्मकः पूर्णस्ततोऽन्यत्साधनं चरेद चित्तम् रसयुधम् कुत्र जायदे योगिनः परं तज्जयेद्ब्रह्मभावेन शमदमपरायणः स्वधर्मसंयुधो भूत्वा देहनिर्वाहकम् चरेद देहस्य शमनं तच्च जायते स दमस्मृतः विषयार्थं मनस्तस्य सङ्कल्पं यत्समाचरेत् तन्नेच्छेच्चित्तमागृह्य कुर्याद्ब्रह्मपरायणम् अयं शमः समाख्यादस्तेन चित्तं भवेत् परं स्वाधीनं सर्वभावं च त्यक्त्वा शनै भवेद् शनैः शनैरुपरमेद्विषयेभ्यो महात्मवान धृतिं योगमयीं धृत्वा भवेद्योगी स मानवः कर्ममार्गं परित्यज्य जीविधं योगी सत्तमः ध्यानयोगपरो भूत्वा तिष्ठेन्नित्यं वदामि तं मनोवाणीविहीनं यद्ब्रह्म तत्र समाचरेत ध्यानं सङ्कल्पत्यागाख्यं विषयेषु निरन्तरं यो यच्चित्तेन सङ्कल्पक्रियते विषयेषु च तत्तत्सङ्कल्पहीनं स कारयेद्योगतत् परः एवं चित्तम् नरस्यैव स्वाधीनम् जायते सदा यदा धर्तुम् स नो शक्रस्तदान्यदाचरेद्बुधः देहेन्द्रियाणि सङ्गृह्य तिष्ठेद्भूमौ महायशाः न चलेष्टाणुवत्सोऽपि पिक्रियाम् नैव समाचरेद तत्र यन्मिलितं चान्नं जलपानादिकं चरेद परेच्छया समयुक्तः सदा तिष्ठेन्महायशाः केनापि जलपानादि न दत्तं तादृशो वसेद न तदर्थ श्रमे सोच्छे प्रारब्धारक सर्पवृच्चिव्याख्राद्य पीड़ि यदि मानव नागनवादिवि नचलेत् सोपि सोपिस्वनाजवत् देहप्रारब्धमाश्रित्य न नते शुक्रोधमाचरेद पूर्वजन्मकृतं कर्म मया प्रबोधितः इमे सम्पीडयन्त्येवमेषां देशो न विद्यते दे। अथवा सात्विकैस्तत्र पूजित सर्वभावतः नित्यं नानाजनैषोऽपि न चलेत्तदा पूर्वजन्मकृतं कर्म प्रेरितास्तेन मानवाः मया माम् पूजयन्त्येव गुण न विद्यते एवं मनसि सन्धार्य तेषाम् नेच्छेच्छुभं कदा द्वन्द्वमेवं परिगृह्य तिष्ठेन्नित्यं महायशाः अनेन विधिना सोपि स्वल्पकाले नभोविधे भो विधे चित्तं जयेन्न सन्देहशान्तिं पूर्णामवाप्नुयाद नान्यत् किञ्चित् चरेत्कर्म न ध्यानादिगमादराद एवं शमदमौ धृत्वा भवेद्योगी स मानवः विचारम् ब्रह्मणस्तत्र कुर्यान्नित्यम् विशेषतः कीदृशम् ब्रह्म हृत्स्थम् मे वेदाध्यै प्रतिपादितम् पञ्च भूमिमतिक्रम्य तिष्ठे क्रमेण मानवः नानाब्रह्मणि पश्यन् सन्नन्दे शान्तिमवाप्नुयाद शान्तियुक्तो नरः पश्चात् सन्ध्यजेत्तां महाद्भुतां जडावस्थाम् पुनः सोऽपि यथेच्छाचारगो भवेत् दृष्ट्वा पञ्च भूमिप्रचालकम् शान्ध्यायुक्तो भवेत् नित्यम् स्वाधीन हृदयः परः दृष्ट्वा ब्रह्मस्वयं योगी रसहीनो भवेन्मुदा सर्वत्र नात्र सन्देहस्यान्त्या सर्वं समाचरेद अनेन ज्ञानी दक्षज्ञानी पापरायणः क्रमेण साधयेद्योगं स सम्भवेत्परः एवं कर्तुमशक्तश्चेत्तदा श्रुत्वा महामतिः इमं योगं स्वयं तत्र निष्ठायुक्तो भवेत् सदा स्वधर्मनिरदो भूत्वा योगमिच्छेन्निरन्तरं निन्द्यभोगान् प्रभुञ्जन् सन्नन्दे स्वानन्दगो भवेद् गणेश्वरं तत्र दृष्ट्वा योगयुक्तो भविष्यति ज्योतिर्देहधरो भूत्वा प्रभजद्गणनायकं ब्रह्मकल्पमयं स्थित्वा कालं तत्र महामतिः तद्देहे लीनतां प्राप्य ब्रह्मभूतो भविष्यति एवं कर्तुमशक्तश्चेत्तदा स धर्मसंयुधः कर्माचरेत् प्रजानाथब्रह्मार्पणविधानदः तेनैव शुक्लगत्या स ब्रह्मीभूतो नरो भवेद निकाम सदा ब्रह्मणि तत्परः एवं कर्तुमशक्तश्चेत्तदाहं ब्रह्मभावतः त्रिविधं फलमुत्सृज्य कर्मजं योगमाप्नुयात् कर्मत्यागबलेनैवाकं ब्रह्म निश्चयेन सह क्रमेण कर्मसंयुक्तो भविष्यत्यन्यजन्मनि कामकर्मकर्ता स पुनरन्यभवे नरः योगरससमयुक्तो भवेद्विषयनिन्दकः एवं क्रमेण शान्तिं स लभेत्पूर्णां न संशयः क्रमार्थं रचितम् सर्वं नाना मदसमन्वितं सुगमं सर्वभावेषु गणेशभजनं परं तेन योगी भवेन्नूनं सर्वशास्त्रेषु सम्मतं यत्किञ्चित् गणराजस्य व्रतपूजादिकं प्रभो कीर्तनश्रवणाद्यं तु ब्रह्मीभूतप्रदायकं नानाविषयसंयुक्तो नरस्मरेद्गणाधिपम् अकर्निष्यम् तदा स्यान्दे गणेशस्मरणं भवेद तेन स्वानन्दगो भूत्वा योगमभ्यस्य तन्मयः ब्रह्मकल्पान्तभावेश भविष्यदिनसंशयः स्मरणं गणराजस्य प्रकुर्यान्नित्यमादराद तस्यान्दे गणराजस्य स्मृतिम् अदो अदोहर्निशमेकं तं संस्मरेन्मानवः परं नानायोगादिकं सर्वं साध्य योगी समो भवेत् आयासेन विहीनोऽपि सदा विषयलम्पटः गणेशस्मरणे सकृसुक समदां व्रजेद शिवविष्णुमुखादीनां नरो यः स्मरणं चरेद अन्ते तेषां तस्मै स दद्या चित्तगः तेषां लोकं समासाद्य भुक्त्वा भोगान् मनोहरान् प्रपतेन्नत्र सन्देहो मृत्युलोके विशेषतः पुराणेषु प्रपढ्यन्ते त्रिगुणानां लया सदा अधः स जन्ममृत्युभ्यां युक्तो भवति तद्गतः अधः समाख्यादं समाख्यातं गणेशभजनं परं तेनाज्ञानसमयुक्तो नरो ब्रह्ममयो भवेद यदत्ते कथितं दक्षयोगप्राप्त्यर्थमादराद अज्ञानसंयुतस्याभिब्रह्मीभूतप्रदायकम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रे अज्ञानिनां क्रमयोगवर्णनं नाम क्रम नवमोऽध्यायः यदि योगगीतासूपनिषत्सु सुगमासु पञ्चमोऽध्यायः ॐ